अथ त्रिंशदधिकद्विशततमोऽध्यायः जरितोवाच अस्माद्विला निष्पतितमाखुंशेनो जहारतं शुद्रं पद्भ्यां गृहीत्वा चा यातो नात्र भयं हि वः शार्ङ्गका ऊचुः न हृतं तं वयं विद्मः शेनेनाखुं कथञ्चन अन्येऽपि भवितारोत्रा तेभ्योऽपि भयमेव नः संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनं मृत्युर्नो बिलवासिभ्यो बिले संशयः निःसंशयात् संशयितो मृत्युर्मातर्विशिष्यते चरखे त्वं यथा न्यायं अहं वेगेन तं यान्तमद्राक्षं पततां वरं बिलादाखुं समादाय पुत्रा महाबलं तं पतन्तं महावेगात् त्वरिता पृष्ठतोऽन्वगाम् आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात् योनोद्वेष्टारमादाय राजप्रधावसि भव त्वं निरमित्रो हिरण्मयः स यदा भक्षितस्तेन श्येनेनाकुःपतत्त्रिणा तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम् प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयं श्येन मम पश्यन्त्या हृत आखुर्महात्मना शार्वका ऊचुः न विद्महे हृतं मातः श्येनाखुं कथञ्चन अविज्ञायन न शक्यामः प्रवेष्टुं विवरं भुवः जरितोवाच अहं तमभिजानामि ऋतं श्येन मूषिकं नास्ति वोत्रभयं पुत्रः प्रियतां वचनं मम